मुद्गलपुराणं खण्डं टु एकदन्तचरितम् अध्यायं फोर्टि फैव् मदासुरस्वर्गविजयं श्रीगणेशाय नमः बृप्समद उवाच तदः कदाचिद्दैत्येन्द्रैर्बोधितो भून्मदासुरः विजयाय समुद्युक्तस्त्रैलोक्यस्य मदान्विदः शुक्रमुपसंगम्य शुक्रमुपसङ्गम्य तं प्रणम्य विशेषतः सङ्गृह्यमुनिमुख्यं वै विजया करोन्मतिं नानादिग्भ्य समायादा असुरा दैत्यपास्ततः सन्नद्धास्त्वरमाणाश्च राक्षसाः प्रययुर्मदम् चतुरङ्गबलैर्युक्तसङ्ख्यातिदैर्मदासुरः निर्ययौ दिग्दयार्थं स संस्तुतो बन्दिभिर्नृपः दैत्या केऽपि महाकोरा निःसृतास्तत्पुरो बभुः मेरुमन्दारसङ्काशायमाय भयदायकाः नाना शस्त्रास्त्रसंयुक्ता कवचादिसमावृताः नानावाहनगास्ते वै कम्बयन्तो वसुन्धरा केचित् पर्वतस्य धरा केचिन्महाबलपराक्रमाः नानाभयङ्कराकारा बभुस्सैन्ये समन्ददः तदा संशयिता सर्वे ब्रह्माण्डे लोकसंगुले पृथिवी जयने सक्ता दैत्याः परमदारुणाः आदौ तत्रा सुरेशानमदासुरसुचोदिताः के चित्वा मृदा युद्धम केचितान् शरण ययु राजोभुता केचिच्यवनानितालयिका भूमिस्ता सर्वश्त दैत्या भूमंडल जिस्ते हर्ष संयुता सप्त द्वीभवतीं पृथ्वीं महासुराः देवानां जयने बुद्धिं चक्रुः परमदारुणाः वायुवेगसम सर्वे गदा स्वर्गं क्षणार्थतः वनानि दे देवैः संज्ञापितस्तत्र सुरेन्द्रक्रोधसंयुधः युद्धाय शस्त्रसंयुक्तायैर्देवैर्वै तत्परो भवत बृहस्पतिं समागम्य प्रणनाम सुरेश्वरः सुरेश्वरो द्विजेन्द्रेण मानिदो भक्तिसंयुधः तद इन्द्रं महाकान्तिर्बृहस्पतिः शृणुदेवेन्द्रवाक्यं मे कालकर्मयुदं महद शक्तेः सवराधानेन दुर्जयः स मदासुरः अधः परित्यज्य पलायध्वं सुरेश्वराः एवमुक्ते जीवेन पलायन्त जदेवताः बृहस्पतिसमायुक्ता त्यक्त्वा स्वर्गाधिकम् भयाद तदो मदासुरो ज्ञात्वा सर्वं देवविचेष्टितं दैत्यैर्युक्द सुसंहृष्ट अययावमरावतीं तत्रेन्द्रासनगो भूत्वा सेव्यमानोऽप्सरोभिश्च गन्धर्वैर्गानतत्परैः विविधैर्दिव्यभोगैः सेव्यमानो मरैस्तथा बलदर्पसमायुक्तो दैत्याैर्नानाविधैर्बभौ देवानां स पदेष्वेव स्थापयामास दैत्यपान् द्या महावीर्या संस्थिदा बुभुजुसुखं ततस्तैः स विचार्यैव ययौ ब्रह्मपदं महद विधादास्तानमुत्सृज्य कैलासं तत् सत्यलोके सुरा सर्वे बभ्रमुर्यत्र तत्र वै नानाभोगयुता दृष्टा रेजिरे मदसंयुताः विमानैर्वाह्यमानास्ते मनो वेगैः सुखप्रदैः कामगैश्च महादैत्या मेनिरेकृदकृत्यता मदासुरस्तत्र राजा ब्रह्मासनसमाश्रितः मुदं लेभे सुरेशा नै संवृद्धकालभेदिदैः तदस्थैः संवृतो दैत्यो ययौ वैकुण्ठमादराद ज्ञात्वा गदमः क्रूरं पलायद रमापदिः सोऽपि कैलासमगमद्विष्णुस्वैः पार्श्वदैर्वृतः मदासुरो महादुष्टो वैकुण्ठे संस्थितो भवत नारायणासने संस्थो दैत्यराजाैर्महाबलैः संवृद्ध शुशुभेदेव नानाभोगसमन्वितः सुखं चानुपमं तत्र वैकुण्ठे विष्णुना कृदम् तदेव बुभुजे सोऽपि दैत्यैर्दुष्टैः समन्वितः विमानानि विचित्राणि देवोद्यानानि सर्वशः कल्पवृक्षयुधान्येते दे दैत्यपाः समभुञ्जत सहिदो सहितो वीरप्रतापी स मदासुरः कैलासं शङ्करस्थानं ययौ रणविधित्सया शिवोऽपि स्वगणैर्युक्तो देवैर्विष्णवादिभिर्वृतः शक्तिलोकं जगामाद भयसङ्कुलितो मदाद दैत्येश्वरो महादैत्यै कैलासे संस्थितो भवद अदुलं सुखमत्यन्तं भुभुजे तैः समन्वितः शिवेन रचितं पुण्यं कैलास्ये कल्पितप्रदं नानाश्चर्ययुधं हृष्ठो दैत्यस्तद् बुभुजे बलाद मोहितो भोगभावेन धन्यं चैव मदासुरः मेनेष्वं सर्वदनुजैस्त्रिपुरप्रमुखै कलैः देवाः सर्वे ययुः शक्तेर्लोकं तद्भय सङ्कुलाः शक्तिस्तान् गणसंयुक्तान् समाश्वास्य स्थिता भवद शिवादीनादिमाया सा जगादवदताम्बरा जगतश्च जगन्मादा सृष्टिस्थित्यन्धकारिणी आदिशक्तिरुवाचा मा भयं देवदेवे स्यात् कुरुध्वं मम सन्निधौ तिष्ठतात्र न दैत्योयं कदापि त्वागमिष्यति मदीयवरदानेन गर्वयुकुदो बभूवः मदासुरो महाभागो वचो मम करिष्यति आगमिष्यदि दैत्यश्चेत्तदा मां पूजयिष्यति मदीयमवमानं वै न करिष्यति देवपः कदाचित्तेन गर्वेण मम लोकनिवासिनः पीडिताश्चेत् क्षणं सद्योहनिष्यामि न संशयः एवमाश्वासिता देवाशक्र्यादे भयं त्यक्त्वा च दैत्येभ्यो दुःखयुक्ता महासुर ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिदे मदासुरस्वर्गविजयो नाम पञ्चचत्वारिंशोऽध्यायः ओम्